श्रीहरये नमः त्रिसप्ततितमोऽध्यायः श्रीशुक उवाच अयुधे द्वे सतान्यष्टो लीलया युधिनिर्जिताः ते निर्गता गिरिद्रोण्यां मलिनामलवाससः क्षुत्क्षामा सूक्ष्मवधनात् सम्भ्रोतपरिकर्षिताः ददृसुस्ते घनश्याम्भम् पीतकौसेयवाससं श्रीवत्साङ्कं चतुर्भाहुं पद्मगर्भारुणेक्षणं चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलं पद्महस्तं गताशङ्क रधाङ्कैरुपलक्षितं किरीटकारकटकटिश्रोत्रा गता चितम् भ्राजत्वरमणिग्रीवं निवीतं वनमालया पिबन्त इव चक्षुर्भ्यां लिखन्त इव जिह्वया नासाभ्यां रम्भन्त इव बाहुभिः प्रणेमोर्घतपाप्मानो मूर्धभिपातयोर्हरेहे कृष्णसन्दर्शनाह्लादं ध्वस्तसंरोधनक्लमाह प्रशसंशो ऋषि केशं गीर्भिप्राञ्जलयो नृपाः राजानवूचो नमस्ते देवदेवे प्रपन्नार्तिहराव्यय प्रपन्नान् पाकिन कृष्ण निर्विण्णान् घोरसंस्कृतेः नैनं नातान्वसूयामो मा गतं मधुसूदन अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो राज्यैश्वर्यमधो नश्रेयो न श्रेयो विन्दते नृपः त्वन्मायामोहितो नित्या मन्यते शम्बधोचलाः बृहदृष्णां यथा मन्यन्त उदकाशयं एवं वैकारिकीं मायामयोक्तावस्तु चक्षुते वयं पुरा श्रीमदनष्टधृष्टयो जिगीषयास्त्या इतरेतरः स्पृधः नन्दप्रजा स्वा अतिनिर्घृणा प्रभो मृत्युं पुरस्त्वा विगणय्य दुर्मदाः त एव कृष्णाद्यगभीररंहसा दुरन्तवीर्येण विचालिता श्रियः कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्बा शरणौ स्मरामते अतो न राज्यं मृगदृष्णि रूपितम् देहेन शश्वत्पतता उपाचित्तव्यं उपाचितव्यं स्पृहयामहे विभो क्रियाबलं प्रीत्य च कर्णरोचनं तं नः समाधिसोपायं येन ते चरणाब्जयो संसरतामिह कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः श्रीशुक उवाच संस्तूयमानो भगवान् णस्तात शरण्यश्लक्षणया गिर श्रीभगवानुवाच अद्य प्रभृति वो भूमा मय्यात्मनि अखिलेश्वरे जायते भक् आशंसितं तता दिष्ट्या व्यवसितं भूपा भवन्तरुदभाषिणः क्षीरैश्वर्यमधोन्नाहं पश्य उन्मादकं नृणां सह हयोनगुशो वेणो रावणो नरकोपरे श्रीमधा्रंशितास्थानाद् देवतैद्यनरेश्वराः भवन्त एतत् विज्ञाय देहात्युत्पाद्यमन्तवत् मां यजन्तोद्वरैर्युक्ता प्रजाधर्मेण रक्षत सुखं दुःखं भवा, भवा प्राप्तं प्रातं च सेवन्तो मच्चित्ता विचरिष्यत उदासीनाश्च देहाधौ आत्मा रामादृतव्रताः मय्यावेश्य मामन्ते ब्रह्म श्रीशुकमुवाच इद्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः तेषां न्ययुङ्क्तपुरुषान् स्त्रियो मज्जनकर्मणि सपर्यां कारयामास सह देवेन भारत नरतेवोचितैर्वस्त्रैर्भूषणैस्रग् भो विलेपनैः भोजयित्वा वरान् सुस्नातां समलङ्कृतान् भोगैश्च विविधैर्योक्तां ताब् भोलाद्यैर्नपोचितैः ते पूजिता मुकुन्देन राजानो मृष्टकुण्डला विरेजुर्मोचिताक्लेशात् क्लेशात् यथा ग्रहाः रधान् सतस्वानारोप्य मणिकाञ्चन भूषितान् प्रीणय्य सुनृतैर्वाक्यं स्वदेशान् प्रत्ययापयत् त एव मोचिता कृश्रा कृष्णेन सुमहात्मना युस्त्वमेव ध्यायन्त कृतानि जगत्पतेः जगतुः प्रकृतिभ्यस्ते महापुरुषचेष्टितं यथान्वसा सद्भगवांस्तथा चक्रुरधन् त्रिधाः जरासन्धं गतायित्वा भीमसेन केशवः पार्धाभ्यां संयुतः प्रायात् पूजितः गत्वा ते सङ्कान्धमुर्जितारयः हर्षन्तः स्वहृदो दुर्हृतां च असुका तच्छ्रुत्वा प्रीतमनस इन्दप्रस्थनिवासिनः मे निरेमागतं शान्तं राजा च आप्तमनोरतः अभिवन्त्यातराजानम् भीमार्जुनजनार्दनाः सर्वमाश्रावयाञ्चक्रो आत्मना यदनुष्ठितं निशंयधर्मराजस्तत् केशवेनानुकम्पितम् केशवे नानुकंपितं नोवाच किञ्चन इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्ते कृष्णाध्यागमने त्रिसप्ततितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दगोविन्द सद्गुरूणा तु मकराजके जय